निधनपतजयः निधनपतान्त्रिकाजनमः ओर्ध्वलिङ्गायनमः शिरण्याजनमः शिरण्यलिङ्गायनमः सुवर्णाजनमः सुवर्णलिङ्गायनमः दिव्याजनमः दिव्यलिङ्गायनमः भवाजनमः भवलिङ्गाजनमः सर्वाजनमः सर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलाजनमः ज्वलिङ्गाजनमः आत्माजनमः आत्मलिङ्गाजनमः परमाजनमः परमलिङ्गाजनमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गज्ञस्थापयति नमो नमः भवे भवे नाति भवे भव भवोद्भवाय नमः वामदेवा जनमो ज्येष्ठा जनमश्रेष्ठा जनमो रुद्रा जनमःकाला जनमः कलविकरणा जनमो बलविकरणा जनमो बला जनमो बलप्रथना जनमः सर्वभूतदमना जनमो मनोन्मना जनमः अघोरेभ्योऽथोरेभ्यो घोरघोरकरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामेश्वरः सर्वभूतानाम् ब्रह्माधिपदग् ब्रह्मणाधिपदग् ब्रह्मा शिवो अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः